stay updated with bhakti videos press the subscribe button and tap the bell icon on the youtube app and never miss an update from giri bhakti न्द्रम् हि भगवन्द्रम् प्रजाकर्ता प्रजापते प्रजाकर्ता प्रजापति प्रगृह्णीश्वर बलिं सैमा प्रगृह्णीश्वरबलिं सैमा सापत्यं रक्ष गर्भिणी सापत्यं वृक्ष गर्भिणी अश्विनौ देवदेवेसौ अश्विनौ देवदेवेसौ प्रगृह्णीथन् बलिं द्विमा प्रगृह्णीथन् सापत्यं गर्भिणीं सीमा सापत्यं गर्भिणीं सीमा संरक्षतां पूजयामि sagama pritaye vrittam sagama vidaye vrittam utyum raksha द्वादशप्रोक्तः नित्य द्वादशप्रोक्तः प्रगृह्णीत्वं बलिन्द्विमा प्रगृह्णीत्वं यस्माकं ते यस्माकं ते नित्यं रक्षतु गर्भिणी नित्यं रक्षतु गर्भिणी पिनाय ध्यक्ष विनायक गणाध्यक्ष शिवपुत्र महाबल शिवपुत्र महाबल प्रगृह्णीश्वरबलिं सैमा प्रगृह्णीश्वरं सैमा सापत्यं रक्ष गर्भिणीं सापत्य सैमा ईश्वरं सैमा सा पत्यं रक्षभिः सा पत्यं रक्षर्भिः मः प्रत्यासौ मार्तो नलः ध्रुवाधरधराशैव असवेष्टौ प्रतीतः प्रगृह्णी त्वं बलिं सैमां प्रगृह्णी त्वं बलिं नित्यं रक्षतु गर्भिणीं नित्यं रक्षतु गर्भिणीं पितृदेवी श्रेष्ठे प्रभुपुत्री महाबले पुदश्रेष्ठे निशासे निवृत्ये शोनकप्रिये प्रगृह्णी त्वं बलिं सैमान प्रगृह्णीत्वं सापत्यं वृक्ष सापत्यं वृक्ष रक्षकर्भिणी पत्यम रक्षकर्भिणी